अथ सप्तदशाधिकशततमः सर्गः ततो हि दुर्म रामश्रुत्वैवम् दध्यौ मुहूर्तम् धर्मात्मा बाष्पव्याकुलोचनः ततो वै श्रवणो राजा यमश्च पितृभिः सह सहस्राक्षश्च देवेशो वरुणश्च जलेश्वरः षडर्धनयनः महादेवो वृषध्वजः कर्ता सर्वस्य लोकस्य ब्रह्मा ब्रह्मविदाम् ब्रम्ह वरः एते सर्वे समागम्य विमानैः सूर्यसन्निभैः आगम्य नगरीम् लङ्कामभिजग्मुश्च राघवम् ततः सहस्ताभरणान् प्रगृह्य विपुलान् भुजान् अभ्रुवम् स्त्रिदश श्रेष्ठ राघवम् प्राञ्जलिम् स्थितम् कर्ता सर्वस्य लोकस्य श्रेष्ठो ज्ञानविदाम् विभुः उपेक्षसे कथम् सीताम् पतन्तीम् हव्यवाहने कथम् देवगणश्रेष्ठमात्मानम् नावबुध्यसे ऋतधामा वसुः पूर्वम् वसूनाम् च प्रजापतिः त्रयाणामपि स्वयं स्वयम् प्रभुः रुद्राणामष्टमो रुद्रः पञ्चमः अश्विनौ चापि कर्णौ सूर्या चन्द्रमसौ अन्ते चादौ च मध्ये च दृश्यसे च परन्तप उपेक्षसे च वैदेहीम् मानुषः प्राकृतो यथा इत्युक्तो लोकपालैस्तैस्वामी लोकस्य राघवः अब्रवीत्रिदश्रेष्ठान् रामो धर्मभृताम् वरः आत्मानम् मानुषम् मन्ये रामम् दशरथात्मजम् सोऽहम् यश्च यतश्चाहम् भगवांस्तद्ब्रवीतु मे इति ब्रुवाणम् काकुत्स्थम् ब्रह्मा ब्रह्मविदाम्बरः अब्रवीत्सृणुमे वाक्यम् सत्यम् सत्यपराक्रम भवान्नारायणो देवः श्रीमांश्चक्रायुधः प्रभुः एकशृङ्गो वराहस्त्वम् भूतभव्यसपत्नजित् अक्षरम् चा मध्ये चान्ते च लोकानाम् त्वम् परो धर्मो विश्वक्सेनश्चतुर्भुजः शार्ङ्गधन्वा हृषीकेशः पुरुषः पुरुषोत्तमः अजितः खड्गधृग्विष्णुः कृष्णश्चैव बृहद्बलः सेनानीर्ग्रामणीश्च त्वम् क्षमादमः प्रभवश्चाप्ययश्च मधुसूदनः इन्द्रकर्मा महेन्द्रस्त्वम् शरण्यम् शरणम् च त्वामाहुर्दिव्या महर्षयः सहस्रशृङ्गो वेदात्मा शतशीर्षो महर्षभः त्वम् त्रयाणाम् हि लोकाणामादिकर्ता स्वयम् प्रभुः सिद्धानामपि साध्यानामाश्रयश्चासि पूर्वजः त्वम् यज्ञस्त्वम् वषट्कारस्त्वमोङ्कारः परात्परः प्रभवम् निधनम् चापि नो विदुः को भवानिति दृश्यसे सर्वभूतेषु गोषु च ब्राह्मणेषु च दिक्षु सर्वासु गगने पर्वतेषु नदीषु च सहस्रचरणः श्रीमाञ्छतशीर्षः सहस्रदृक् त्वम् भूतानि पृथिवीम् सर्वपर्वतान् अन्ते पृथिव्याः सलिले दृश्यसे महोरगः त्रीन् धारयन् राम अहम् ते हृदयम् रामजिह्वा देवी सरस्वती देवारोमाणि गात्रेषु ब्रह्मणा निर्मिताः प्रभो निमेषस्ते स्मृता रात्रिरुन्मेषो दिवसस्तथा संस्कारास्त्वभवन् वेदानैतदस्ति त्वया विना जगत् सर्वम् शरीरं ते स्थैर्यम् ते वसुधातलम् अग्निः कोपः प्रसादस्ते सोमः या लोकास्त्र क्रांता स्वैर्क्रमस्त्रि महेंद्रश्चो राज बलि बध्वा सुदारुण् सीतालक्ष्मीभ विष्णुर्देव कृष्ण प्रजापति वहां रावण सेह प्रविष्टो माषी तनु तदिद नया कार्यम धर्म भृता हवण राहृषो दिवक्रम अमोघम् देववीर्यम् ते न ते पराक्रमाः अमोघम् दर्शनम् राम अमोघस्तव संस्तवः अमोघास्ते भविष्यन्ति भक्तिमन्तो नराभुवि ये त्वाम् देवम् ध्रुवम् भक्ताः पुराणम् पुरुषोत्तमम् प्राप्नुवन्ति तथा कामानिह लोके परत्र च स्तवम् दिव्यमितिहासम् पुरातनम् ये ना कीर्त्य पराभव इशे श्रीमद्राणे वाक्ये युद्धकांडे सप्तशाधिकत सर्ग